मुद्गलपुराण खंडम तो यहकदंतचर अध्या फोर्टी अग्निमाहात्म्यम श्रीगणेशा नम मुगल उवाच शापिद भृगुणाग्न स्थान निज तद अय स्व स्थित परम दुखि अग्निम् विना च सर्वत्र हा हाकारो महान्भूद मुनयसहितदेवैर्ब्रह्माणं शरणं ययुः मुनय ऊचुः सप्तोऽग्निर्भृगुणास्वामिन्नन्तर्धाय ययौ स्वयं कर्महीना वयं नाद वह्निहीना भवामहे शरणं त्वां प्रपन्नास्मो स्मो रक्ष रक्षपितामह नो चेच्छराचरं सर्वं नश्यत्यत्र न संशयः श्रुत्वा स वचनं तेषां तैः सहाग्निं व्ययौ विधिः सान्त्वयामास तं वाक्यैर्वेदानां परमाद्भुतैः ब्रह्मोवाच अग्नेशृणुमहाभागवेदेषु कथितं महद सर्वभक्षश्युचिस्मान्वै तव नाम विनिश्चितम् भृगोर्नैवापराधोऽस्ति भाविजातं न संशयः मा कुरुष्व वृथा चित्ताम् भव सौम्यो महामदे अतस्त्वं सर्वभक्षोऽपि पवित्रपरमो मदः भक्षदोषविहीनस्त्वम् भवितासि न संशयः वचश्रुत्वा चुकोपाग्निप्रलयं कर्तुमुद्यतः ज्वाला सां वर्ति का क्रोधाचिक्षेपचरा चे ज्वालाह्रमाद्या प्रयुष्ठ गणेशमस ध्या स्थिता भयसमेतरे त्रैकदंत्रो ब्राह्मणोवद आयया वग्नि साध्ये तमुवाज हिम वचह ब्राह्मण उवाच अग्ने किं क्षुभिदोऽत्यन्तं हरसि त्वं कथं जगद अकाले क्रोधसंयुक्तो नस्मृतस्ते विनायकः स्वातन्त्र्यं पश्य यत्रास्ति मा गर्वं गुरुदेवप विनायकं परित्यज्य स्वातन्त्र्यं न भवेद्यदः एवमुक्तो पितं विप्रं ददा प्रहर्ष्य स मुनीन्द्रो स भुवाच गणनायकः शलाकां जन्म वह्ने स्वसत्तया मया दत्तां तदैवं सचराचरं यवमुक्त्वा शलाकां स तत्र चिक्षेप भूसुरः न तां शक्तो दाहयितुं जादौ ततत्तं प्रणनामाधगदगर्वो हुदाशनः को विनायकनामा वै सर्वेषां नायकस्मृदः वद मे करुणासिन्धो तं भजामि विशेषदः त्वं कोऽसि विप्ररूपेण प्रमोहयसि मां प्रभो शान्तिमग्निमुवाचाधविप्ररूपी गजाननः बोधयन् हेदुगर्भाभिर्वाग्भिर्सर्वार्थकोविदः विप्र उवाच स्वानन्दवासिनं विधिविनायकमनामयं सर्वेषां नायकम् पूर्णं नायकैर्वर्जितं परम् शान्तियोगेन शान्ति भजन्ते द्विजोत्तमाः तं योगं तेभिधास्यामि शृणुष्वै गमना प्रभो एकानेकादिभेदैश्च संयुक्तप्रणवस्मृतः सम्पत्नादसमाधिं तं विद्धिवह्ने महाद्युदे संयोगायोगभेदैश्च संयुक्तं ब्रह्म असम्प्रज्ञातरूपस्थं विद्धि तद्योगसेवया सम्प्रज्ञातास्सम्प्रज्ञातयोगे वै शान्तिदायकः शान्तियोगसमाख्यादो गणेशो हव्यवाहना गणासमुखरूपाश्च तेषां स्वामी गजाननः तं भजस्व महातेजो वस्ने भक्तिसमन्वितः यवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परं विधियुक्तं स दैत्येन्द्रगणेशं सर्वसिद्धिदं दर्शयामासरूपं स्वं त्यक्त्वा ब्राह्मणरूपकं गजाननादिचिह्नैश्च चिह्निदं भक्त्रपालकं तं दृष्ट्वा निपपातोर्व्यां वह्निर्हर्षसमन्वितः वदन्दर्हितं रूपं तदखिन्नो भवुचिः स्वर्गं त्यक्त्वा वनं वह्निर्ययौ योगविधित्सया समाधिना तपस्तेऽपि गणेशप्राप्तिहेतवे दिव्यवशशतैनैव तं व्ययौ भक्तवत्सलः गजाननप्रसन्नात्मा परमात्मा परात्परः दृष्ट्वा अग्निं स्वभक्तं प्रत्युवाचः वरं वृणुमहाभाग तुष्टोऽकं तपसा च धे वृक्समद उवाच गणेशवचनं रम्यं श्रुत्वा हर्षसमन्वितं ननाम दण्डवद्भूमौ भावयुक्ते चेतसा पूजयित्वा यथा न्यायं तुष्टावसकृताञ्जलिः हव्यवाहप्रसन्नात्मा गणेशं योगशान्तिदम् अग्निरुवाच नमस्ते विघ्ननाशाय भक्तानां हृदकारक नमस्ते विघ्नकर्त्रे वैह्यभक्तानां विनायक नमो मोषकवाहाय गजवक्त्राय धीमते आदिमध्यान्धहीनाय आदिमध्यान्धस्वरूपिणे चतुर्भुजधरायैव चतुर्वर्गप्रदायिने एकदन्दाय वैतुभ्यं नमो नमः लम्बोदराय देवाय गजकर्णाय ढुण्ढये योगशान्तिस्वरूपाय योगशान्तिप्रदायिने योगिभ्यो योगदात्रे योगिनां पदये नमः चराच प्रणवाकृति धारिणे सिुम सिद्धिबुद्धिदायक सिद्धिबुद्धिपदे तोभ्यं नमो भक्त प्रियांतानन देश प्रसीद कूणा निधे दासोकं ते गणाध्यक्ष मालय विशेष धन्योहं सर्वदेवेषु दृष्ट्वा पादं विनायक कृतकृत्यो महायोगी ब्रह्मभूतो न यदि प्रसन्नभावेन वरदोऽसि गजाननस्तदा मां शापहीनं त्वं कुरु देवेन्द्र सत्तमा, तव भक्तिं दृढां देहि ययौ मोहो विनश्यदि तव भक्तैः सह वासो ममास्तु गणनायक यदा सङ्कटसंयोक्तस्तदा स्मरणतस्तव निःसङ्कडोऽहमत्यन्तं भवामि त्वत्प्रसादः एवमुक्त्वा गणाधीशं प्रणदो भक्तिसंयुधः तमुवाच गणाध्यक्षो भक्तवत्सलभावदः गणेश उवाच त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनं भविष्यति नृणां चैव शृण्वतां पठतां सदा यं यं चिन्तय से कामं तं तं दास्यामि शाश्वतं भक्तिभावेन सन्तुष्टो भृश्यं स्तोत्रेण संस्थितः मदीया भक्तिरचला भविष्यति सदा नख सङ्कटं स्मरणेनैव मदीयेन विनश्यति मृगुर्मम विशेषेण भक्तो सौ शान्तियो गधृक तस्यापि वचनं मिथ्या न करोमि कदाचन यद्यपि त्वं सर्वभक्षपवित्रो भविता सदा पूर्ववत् सर्वमान्यं त्वां करिष्यन्ति द्विजादयः सर्वभक्षे च ते दुःखं हरामि शृणु मे प्राप्तं शुभाशुभं तत्रामृदभुक्तं भविष्यसि सर्वभक्षणरूपायै विकारा न भवन्ति ते अमृताशी मया तत्र त्वं कृतोऽस्सि न संशयः यवमुक्त्वा गणधीशोऽन्तर्धानमगमत्स्वयं वह्निकर्षसमयुक्तस्वगृहं प्रत्यपद्यत तदहादहनो दैत्यसर्वभक्षो बभूवः शुचिश्चा मृदभुग्देवो योगशान्तिधरस्वयं गाणपत्यस्वभावेना भजत्तं गणनायकं गणेशभक्तसङ्गेषु निरतः सोऽसुरेश्वर एतदग्नेश्च सुरेश्वरा यशृणोति नरोत्तमः पठेद्वा भविता तस्य कामोऽप्यत्यन्तदुर्लभः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते अग्निमाहात्म्यं नाम चत्वारिंशोऽध्यायः ॐ